अपरिषिता पापास्ते नदी सप्तपिबन्ति ये यं भूत्वा चैकवप्रा शुचिराकाशगा पुनः देवेषु गङ्गा गन्धर्वप्राप्नोत्यलकनन्दतां तथा पितृन्वैतरणी दुस्तरा पापकर्मभिः गंगा भवति वै प्राप्य असम्बाधा देवनदी दे स्वर्गसम्पादनी शुभा कथमिच्छसि तां रोद्धुं नैषधर्मः सनातनः अनिवार्यमसंबाधं तव कथं वयं न यथा कामं पुण्यं भागीरथीजलं वैशम्पायन उवाच अङ्गारपर्णस्तच्छ्रुत्वा क्रुद्ध आनम्यकार्मुकम् मुमोच बाणानिचिता न हीनाशीविषानिव उल्मुखं भ्रामयं स्तूर्णं पाण्डवश्चर्मचोत्तरं व्यपोहतशरंस्तस्य सर्वानेव धनञ्जयः अर्जुन उवाच विभीषिका वै गन्धर्वनास्त्रज्ञेषु प्रयुज्यते अस्त्रज्ञेषु प्रयुक्तेयं फेनवत्प्रविलीयते मानुषानतिगन्धर्वान् सर्वान् गन्धर्वलक्षये तस्मादस्त्रेण दिव्येन योऽस्येऽहं न तु मायया पुरास्त्रमिदमाग्नेयं प्रादात् किल बृहस्पतिः भरद्वाजाय गन्धर्वगुरुर्मान्यष्यतक्रतोः भरद्वाजादग्निवेश्यः अग्निवेश्याद्गुरुर्मम अग्निवेश्या साध्विद मह्यमद्रोणो ब्राह्मण सत्तम